गणेशपुराणं क्रीडाखण्डम् अध्यायम् फोर्टी नैन् क उवाच एवं लब्धवरा कीर्तिः शेषां रात्रिं निनाय च उष स्नात्वा प्रपूज्याशुमूर्तिं पुत्रयुता ययौ देव विरहा नगरं स्वगम् नानाध्वजपदाकाभिः शेखैर्धूपैरलङ्कृतं डुण्डिनाम च बन्धौदौ नृपपत्नीसुदावुभौ ज्ञात्वा गतौ न्ययानेन शनया वाद्यनिस्वनैः आनीन्ये नगरं कर्णपुरं नाम्ना सुविश्रुतम् मूर्ध्न्याक्रायाशु तनयं सस्वजे परमादराद उवाच परमप्रीतो हर्षगद्गदया गिरा क्षिप्रसादेन सुध श्रान्तोऽसि बहुवासरं दृष्ट्वा त्वां परमाह्लादं प्राप्तो लब्ध्वा सुधामिव विससर्जाखिलाल्लोकान् दत्वा वस्त्राणि दक्षिणाः कीर्तिश्च स नृपः पश्चात्परस्परमधोचदुः सापि सर्वं नृपायास्मै वृत्तान्तं सन्यवेद यद परस्परालिङ्गनचुम्बनानि हास्यं विनोदं परिचक्रतुस्थौ ताम्बूलविच्छेदमभिप्रकर्षात् कामस्य युद्धं निरपत्रपौ च तदकदिपयाहसु ज्ञात्वा पुत्रं गुणाकरं विनीतं सर्वधर्मज्ञं नीदिशास्त्रविशारदम् अभिषेचनीयसंभारान् कृत्वाहूय वरान् द्विजान् सुहृदः सर्वै राजन्यानभिषेकं सुदे ददौ शुभे मुहूर्ते संलग्ने सप्तेष्टग्रहसंयुधे कृत्वाभ्युदयिगं श्राद्धं स्वस्ति वाचनपूर्वकं नानाद्रव्ययुधस्तोयैरभिषेकमकारयद न दत्सु सर्व तुर्येषु ऋग्यजुः साममन्त्रदः अन्यान् ब्राह्मणान्यान् दक्षिणा रत्नदादत्नः स्वयं च वनवासी यदीक्षां गृह्य च च विससर्ज अखिला राजा निजसाधनसंस्थितः तद परशु बाहु महीमिमां धर्म शास्त्रीयनीत्या च त्यागेन यश आर्जयद विख्यातस्त्रिषु लोकेषु पराक्रमबलादभूद मन्दारमूर्तिं दुण्ढै स कृत्वा कण्ठे दधारः समीं दूर्वां विना पूजां न करोति कदाचन नानाभोगाननेकास्त्रीर्बुभुजे धर्मतस्तु सः उत्पाद्यपुत्रान् दानानि दत्त्वा वर्षसहस्रकं चकारराज्यं पश्चात्तत्पुत्रे न्यस्य दिवं ययौ कल्पाननेकान् स्वर्गे सस्थितो धुण्डिस्वरूपवान् मुनिरूवाच एवं शम्याः प्रभावस्ते सङ्क्षेपेण निरूपितः तत्पूजनस्य पुण्यं च मन्दारस्य प्रसङ्गतः तस्मात् त्वयापि पूज्योऽहं शमी मन्दारदो मुने भक्त्या समर्पितं पुष्पम् पत्रमिष्ठं सुधायते निषिद्धपत्रपुष्पादिसमर्प्य नरकं व्रजेद यस्य यद्दैवतं मुख्यं तदिष्टमितरेषु वा समर्पयन्नभेदेन भक्तो दोषं न चाक्नुयाद एवं पञ्चापि सम्पूज्य देवांस्तत्परदामियाद सात्वी कौलीयदे दसस्तु सरूपता उभा सान्न्यं तमसस्तु सलोकदा प्रायाजमस्तुत्रे भक्तिर्न वेधा व्यास उवाच विनायकस्य लोको वै कस्मिं लोके च तिष्ठति एदं मे संशयं ब्रह्मं चेत्तुमर्हसि साम्प्रदम् कमन्यं परिपृच्छामि सर्वज्ञं त्वां विहाय भोः ब्रह्मोवाच मयापि नारदायोक्तो मुद्गलाय च तेन च काशीराजाय लोको वैनाय क्शुभः स काम दिनी शक्तिया तेन निर्मस्पुरा निज लोकेम से स्वयं चक्रे विनायक काशीराजो विमानस्थो दृष्टवांश्चर्म चक्षुषा यम् प्राप्य दुःखम् न प्राप्ते स्त्री पुमानपि ब्राह्मम् कल्पम् च वसदि समाप्यज समाप्य च इक्षुसागरसम्भोगं लभदे तत्र महाप्रलय स्थितः महाप्रलयवेलायां तिष्ठत्येव विनाशि यद तत्पीठं तस्य देवस्य निद्रास्थानं सनातनं सेवेदे सिद्धिबुद्धितं सामवेदस्तु गायति कल्पवृक्षो यच्छति तल्कल्पितं मनुजन अकल्पिता सम्बदोऽत्र जायन्ते तत्प्रभावदः मयैव वर्णिताः सर्वे देवलोका अनेकशः गणेशनिजलोकस्य शक्तिर्नो मम वर्णने सङ्क्षेपेण तदोख्यायि किमन्यच्छ्रोतुमिच्छसि जिद्री गणेशपुराणे क्रीड़ाखंडे शमी मंदारफलवर्णनम नामको नचाश्तम ओम।